ब्रह्माण्डपुराणं पूर्वभागम् अध्यायम् एय्टीन् जम्बूद्वीपवर्णनं सुद उवाच मध्ये हिमवदः पृष्टे कैलासो नाम पर्वतः तस्मिन्निवसति श्रीमान् कुबेरः सह अप्सरोऽनुचरो राजा मोददेह्यलकाधिपः कैलासपादात्सम्भोदं पुण्यं शीतजलं शुभम् मदं नाम्ना कुमुद्वत्तत्सरस्तु दधिसन्निभं तस्माद्दिव्यात् प्रभवति नदी मन्दाकिनीशुभा दिव्यं च तस्यास्तिरे तस्यास्थिरे महद्वनं प्रागुत्तरेमकैलासाद्दिव्यं सर्वौषधिगिरिं रत्नधातुमयं चित्रं सबलं पर्वतं प्रति चन्द्रप्रभो नाम गिरिसुशुभ्रो रत्नसन्निभः तस्य पादे महादिव्यम् स्वच्छोदं नाम तत्सरः तस्माद्दिव्यात् प्रभवति स्वच्छोदा नाम निम्नगा तस्या स्थिरे महद्दिव्यं वनं चैत्ररथं शुभं तस्मिन् गिरौ निवसति मणिभद्रस्सहानुगः यक्षसेनापधिक्रूरो गुह्यकैः परिवारितः पुण्या मन्दाकिनी चैव नदी स्वच्छोदकाचया महीमण्डलमध्येन प्रविष्ठे ते महोदधिं कैलासाद्दक्षिणे प्राच्यां शिवसक्तौषधिं गिरिं मनशिलामयं दिव्यं चित्राङ्गं पर्वदं प्रदी। लोहितो हेमशृङ्गश्च गिरिसूर्यप्रभो महान् तस्य पादे महद्दिव्यं लोहितं नाम तत्सरः तस्मात् पुण्यः प्रभवति लौहित्य नदो महान् देवारण्यं विशोकं च तस्य तीरे महद्वनं तस्ंगिवस यक्षो मणिधरो वशी सौम्यार्मक गुह्यक पिवार कैलासा दक्षिणे पार्शे क्रूरसर्गिरी सर्वथा सर्वधाय सुमहान्वैद्युतो गिरिः तस्य पादे सरः पुण्यं तस्मात् प्रभवदे पुण्या सरयोर्लोकविश्रुता तस्यास्थिरे दिव्यं वैभ्राजं नाम विश्रुतं कुबेरानुचरस्तत्र प्रहेति तनयो वशी ब्रह्मभेदो निवसति राक्षसो नन्दविक्रमः अदरिक्षचरैर्कोरैर्यादुधानशतैर्वृदः रा अपरेण तु कैलासात् mm. पुण्यसप्तौषधिर्गिरिः अरुणः पर्वतश्रेष्ठो रुक्मधातुमयः शुभः भवस्य दयितश्रीमान्पर्वतो मेघसन्निभः शादकुम्भमयै शुभ्रैः शिलाजालै समावृतः शतसङ्ख्यै स्थापनीयै दिवमि मुञ्चवां स्तु महादिव्यो दुर्गशैलो किमाञ्चितः तस्मिन् गिरौ निवसति गिरीशोद्धूम्रलोचनः तस्या पादात् प्रभवति शैलोदं नाम तत्सरः तस्मात् प्रभवदे पुण्याशिलोदा नाम निम्रगा सा चक्षुः प्रविष्टा लवणो दधिं वनं दिव्यं विश्रुतं सुरभीति सव्योत्तरेण कैलासा शिवः सत्तौषधिर्गिरिः गौरं नाम गिरिश्रेष्ठं हरितालमयं प्रति हिरण्यशृङ्गस्तुमहान् दिव्यो मणिमयो गिरिः तस्यापादेमहादिव्यं शुभं काञ्चनवालुकं रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः गङ्गनिमित्तं राजर्षिरुवासबहुलाः दिवं यास्यन्दिदे पूर्वे गङ्गतोय परिप्लुताः मदीय इति निश्चित्य समाहिदमनाशिवे तत्र त्रिपथगा देवी प्रथमं दुःप्रतिष्ठिता सोमपादात् प्रसूतासा सा सप्तधा प्रतिपद्यते युवामणिमयास्तत्र वितताश्च हिरण्मयाः तत्रेष्ट्वादु गतसिद्धिं शक्रः सर्वैः सुरैः सह दिवि छायापथो यस्तु अनुनक्षत्रमण्डलः दृश्यदेभस्वरो रात्रौ देवी चैव भावयन्ती सुरापगा भवोत्तमाङ्गे पतिता समृद्धा यौगमायया सस्याये बिन्धव बिन्दुसरस्मृतं तदो निरुद्धा चिन्तयामासमनसा शङ्करक्षेपमं प्रति भित्त्वा विशामिपादालं पादालं स्रोधसा शङ्करं ज्ञात्वा तम्या अभिप्रायं क्रूरं देव्याश्चिकीर्षितं तिरो बुद्धिरासि बुद्धिरासीदङ्गेषु तान्नदीं तस्यावलेपं ज्ञात्वा तु नद्या क्रुद्धस्तु शङ्करः न्यरूपाच्च शिरस्येनां वेगेन पततीं भुवि ये राजानमग्रदः धमनिसन्ततं क्षीणं क्षुधया व्याकुलेन्द्रियम् अनेन तोषितश्चाकं नद्यर्थं पूर्वमेव बुद्धास्य वरदानं च कोपं नियतवांस्तु सः ब्रह्मणो वचनं श्रुत्वा धारय स्वर्नदीमिति तदो विसर्जयामास संवृद्धां स्वेन तेजसा नदीं भगीरथस्यार्थे तपसोऽग्रेणतोषितः ततो विसृजमानाया स्रोतस्तत्सप्तधागतम् तिस्रप्राचीमभिमुखं प्रतीचीं तिस्रयेवतु नद्याः स्रोतस्तु गङ्गायाः प्रत्यपद्यत सप्तधा नळिनीक्लादिनी चैव पावनी चैव प्राच्यगाः सीता चक्षुश्च सिन्धुश्च सप्तमी त्वनगातासां दक्षिणेन भगीरथं तस्माद्भागीरथीया सा प्रविष्टा लवणो दधिं सप्तैदा भावयन्तीदं हिमाह्वं वर्षमे वधू प्रसूदा सप्तनध्यस्ताशुभाुसरोद्भवाः नानादेशान्प्लावयन्त्यो मलेच्छप्रायास्तु सर्वशः उपगच्छन्तिताः सर्वा यतो वर्षदिवात्सवः शिलीन्द्रान् कुन्तलांश्चीनान् बर्बरान्यवनाध्रकान् पुष्कराश्च पुलिन्तांश्च अचोम्लद्विचराश्चये कृत्वािधा सिंहवन्तं सीतागात् पश्चिमोदधिम् अथ चीनमरुंश्चैव तालांश्च मसमूलिकान् भद्रात्तुषाराल्याम्याकान् बाख्लवान्, पारडान् खषान् एदाञ्चनपदां चक्षुः प्रावयन्ती गदो दधिं दरदांश्च सकाश्मीरान् गान्धरान् रौरसान् कुहान् शिवशैलानीन्द्रपदान् वसतीश्च विसर्जमान् सैन्धवान् रन्ध्रकरकाञ्चमढाभीररोहकान् सुनामुखांश्चोर्ध्वमरून्सिन्धुरेदान्निषेवदे गन्धर्वकिन्नराण्यक्षान्न्रक्षो विद्याधरोरगान् खलापग्रामकांश्चैव पारदांस्तद्गणान् खशान् किरातांश्च पुलिन्तांश्च कुरून् स भरतानपि पञ्चालान् काशीमत्स्यांश्च मगधाङ्गास्तथैव च सुह्मोत्तरांश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च वेदाञ्चन पदान् मान्यान् गङ्गाभावयदे शुभान् ततः प्रतिहदा प्रविष्टा लवणो ततश्च्लादिनिपुण्यप्राजीमभिमुखायययौ प्रावयन्त्युपभागांश्च नैषधांश्च त्रिगर्तकान् धीवरान्नषिकांश्चैव तथा नीलमुखानपि केकरानौष्टकर्णांश्च किरातानपि चैव हि कालोदरान्विवर्णाश्च कुमारान् स्वर्णभूमिकान् आमण्डलं समुद्रस्य तिरोभूतांश्च पूर्वतः ततस्तु पावनी सुपधान् पावयन्ति हिं द्रद्युम्न तथा करपथांश्चैव वेत्रशङ्कुपथानपि मध्यतो जानकिमधो कुधप्रावरणान्ययौ इन्द्रद्वीपसमुद्रं तु प्रविष्टां लवणो दधिं तदस्तु नलिनीप्रायात् प्राचीमाशां जवेन तु तोमरान् भावयन्तीह हंसमार्गान् सहैहयान् पूर्वन्देशांश्च सेवन्ती भित्त्वा सा बहुधा कर्णप्रावरणान् प्राप्य सङ्गत्याश्वमुखानपि सिकदा पर्वतमरुं गत्वा विद्याधरान्ययौ नगमण्डलमध्येन प्रविष्टा लवणोदधिं तासां नद्युपनद्यश्च शतशोथ सहस्रशः उपगच्छन्ति तास्सर्वा यदो वर्षदि वासवः वाक्वौक सा यास्तीरे तु सुरभिविश्रुतम् हिण्यशंगे वसदी विद्वान्बेरको वशीयेत सुमानितौ जासुविक्रम त्रैस्त पिवृतौ विविब्रह्मस क्येत चत्वारस्तु समता एवमेवदु विज्ञेया ऋद्धिपर्वतवासिनां परस्परेण द्विगुणा धर्मतकामतोर्थतः हेमकूटस्य पृष्ठेदु वर्चोवन्नामदसरः मनस्विनी प्रभवति तस्माद्यो अवगाढ़ुयद समुद्रौ पूर्वपश्चिम सरो विषुपद नाम निषदे पर्वोत्तम तस्मावय प्रभवदी गांधर्वी नाकुश तैय मे पश्वात्वदी प्रभो महा तत्र जम्बूनदी यस्या जाम्बूनदं स्मृदं पयोदं तु सरोनीले शुशुभ्रं पुण्डरीकवद पुण्डरीका पयोदाय तस्मान्नद्यौ विनिर्गदे स्वेदात् प्रवर्तते पुण्यं सरयोर्मानसाध्रुवम् ज्योत्स्ना च मृका कामा च तस्माद् द्वे सम्बभूवधुः सह कुरुषु विख्यातं पद्ममीनद्विजाकुलं रुद्रकान्तमिति ख्यातं निर्मिदं तद्भवे न अन्ये चाप्यत्र विख्याताः पद्मा मीनद्विजाकुलाः नाम्ना जयानाम जया नाम द्वादशो तेभ्यः शान्ता यमाध्वी च द्वे न द्यौ संबूवधुः यानि तेषु देवो न वर्षदि उद्भिदान्युत सरिद्वराः वृषभो दुन्धुभिश्चैव धूम्नश्च सुमहागिरिः पूर्वा यदा महापर्वा निमग्ना लवणाभसि चन्द्रकाकस्तदा द्रोणस् सुमकान्तः शिलोचया उदग्यादा उदीच्यन्ता सोमकश्च वराहश्च नारदश्च महीधरः प्रतीच्या मायतास्ते वै प्रविष्टा लवणो दधिं चक्रो बलाहकश्चैव मैनाको यश्च पर्वतः आयतास्ते महाशैलास्समुद्रं दक्षिणं प्रदी चक्रमैनाकयोर्मध्यविदिशं दक्षिणां प्रति तत्र संवर्तको नाम सोऽग्निः पिबदि तज्जलं नाम्ना समुद्रवासस्तु और्वस वडवामुखः द्वादशैदे प्रविष्टा हि पर्वदा लवणो दधिम् महेन्द्रभयवित्रस्ताः पक्षच्छेदभयात्पुरा यदे दृश्यते चन्द्रे स्वेदे कृष्णशकृति भारतस्य तु वर्षस्य भेदास्ते नवकीर्तिताः इहोदितस्य दृश्यं ते यथान्येऽन्यत्र चोदिते उत्तरो वर्ष मुद्दीश्य गुण आरोग्यायु प्रमा धर्मद कामदोथ सन्विता भूता पुण्यतस्तु भागश वसंतिनाजाती तु वर्षुता वै इत्येषा धारयीदं पृथ्वी विश्वं जगत्स्थितम् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्खपादे जम्बूद्विपवर्णनं नामाष्टादशोऽध्यायः ओ